स्वस्यानुभवमन्येभ्यः प्रदातुं तेन वाञ्छितम् एनाध्यात्मिकतामर्त्य चित्ते सुप्रसिता भवेत् सांसारिकमनुष्याणां भासनं न च रुचिप्रदं भूरि तदस्तीति स उक्तवान् लौकिकासक्तिहीनानाम् ईश्वरप्राप्तिकामिनां यूनां सेवनमेतेन हेतुना स चकाङ्क्ष प्रतीक्षाक्षमो भूत्वा मन्दिरोपान्तसंस्थितम् आगारपटलं गत्वा स उच्चैरघोषयत् समागच्छन्तु हे बाला योऽयं भवथ कुत्र वा विना युष्मानहं नैव शक्नोषि मे खलु आरभन्त समागन्तुं युवका अविलम्बितम् नरेन्द्रनाथ एतेशाम् तरुणानां प्रधानकः गुरोश्चापि नरेन्द्रस्य मिलनं दक्षिणेश्वरे यज्जातं प्रथमं तत्तु नितरामर्थवत् खलु प्रतिजज्ञो गुरुश्वस्य भाविसन्देशवाहकम् नरेन्द्रो निजमित्रेभ्यो विभिन्नो दृश्यते स्म च स्वकीये वेशविषये सावधानशनाभवत् नेत्रयुग्मे नरेन्द्रस्य ध्यानभावो विलोकितः गानानि कानिचित्तेन गीतानि मधुरस्वरैः तेषु गानेषु तस्यात्मा लीनो भूदित्यभासत गाने समाप्ते वेगेन नरेन्द्रस्य करं गुरुः गृहीत्वा नीतवान्तं तु प्रधानं चोत्तरस्थितं गुरोर्नयनयोर्वास्त्वं स्रवति स्म निरन्तरम् अहो अहोकालविलम्बेन बालमे त्वं समागतः एतावदीर्घकालं मां निर्दयं प्रतिपालने अस्थापय स्वमित्येवं गुरुणा परिदेवितं श्रवणो मम निर्दग्धो धृत्वा लौकिकभाषणम् कियद्वाहं तु वाञ्छामि यदीय हृदयस्थितम् विशिष्टानुभवं छेप्तुम् अन्यस्य हृदयान्तरे श्रीरामकृष्ण इत्येवं नरेन्द्रं प्रोक्तवान् तदा कथितं तेन हे प्रभो ध्रुवम् नारायणावतारस्तु नरो नाम महामुनिः मर्त्यदुःखमपाकर्तुं जातस्त्वं धरणीतले नरेन्द्रनाथस्य त्वेदम् अद्भुतश्चीमितोऽभवत् प्रान्तचित्तस इत्येवं नरेन्द्रेण विचिन्तितम् का नीस्खाद्यासकोत्दा गुरु आनयच्च नरेन्द्र तद्गुस्व पाणीनाखाद यथा काचे जनने पुत्रवत्सलाक पुनस्ापी नरेन्द्रो दक्षिणेशर आगछेदी तेनोक आमिति प्रोक्तवान् नरेन् गुरुप्रकोष्ठं भूयोऽपि समायातो नरेन्द्यदा गुरुं नरेन्द्र प्रक्ष भवान् किं देवमैच्छत आम् अहं दृष्टवान् देवं यथा त्वं दृश्यसे मया तदपेक्षाधिकं सुष्टुं द्रष्टुं स भाषणं तेन सहितं श्राद्धमेव तथाविधम् ईश्वरं सम्मुखं द्रष्टुं किन्तु को भवाभिकाङ्क्षते भार्यापुत्रधनादिभ्यो वाष्पं वर्षन्ति मानुषाः परन्तु को वा देवदर्शनवाञ्छया दर्शनं तस्य लभ्येत निर्व्याजक्रन्दनेन हि नरेन्द्रनाथश्रुत्वेदम् आश्चर्यचकितोऽभवत् दृष्टा प्रथमस्तस्तेन योऽव्यलोक यदीश्वरम् तच्छब्दासि यस्यान्तर् भगादेव समागताः गुरुर्वाक्ये स्वविश्वासो नरेन्द्रेण कृतो न हि आसीत् तथापि तच्चित्ते वैरुध्यात्मकचिन्तनम् कल्कत्तां प्रतियात स अभवत् सममेव तदन्तरे मासैकानन्तरं भूयो नरेन्द्रो दक्षिणेश्वरं यदागतस्तदाकाचे गतस्तदा काचित् विचित्रा घटनाभवत् उन्मत्तः सन् गुरुस्तस्य समीपं तु समागतः जल्पित्वा किञ्चिदस्पष्टम् स्थिरदृष्ट्या व्यलोकयत् नरेन्द्रं स तया स्वस्य दक्षिणं चरणं गुरुः अस्थापयन्नरेन्द्रस्य शरीरोपरितक्षणे पुल्लनेत्रो नरेन्द्रस्तु झटित्येव व्यभावयत् लोकं सर्वं तथा सोऽपि शून्यं यातीति सत्वरम् मत्वा स म्रियते चेति तेनोच्चैर्घोषणं कृतं किं करोति भवानेवं ममस्तपितरौ तथा सहोदरा सहोदर्यो भवन्ति भवने मम नरेन्द्रस्यो रसीहस्तो गुरुणा स्थितिं निजः उक्तं तथास्तु सकलं यथा कालं भवेदिति एतत्सर्वं कथं जातम् इत्येवं विस्मितो नरेन् सदा स चित्तयन्नास्तीत सोऽस्ति प्रबलमानसः केनापि भ्रान्तचित्तेन कथं वा स वशीकृतः विचिन्त्यैनं नरेन्द्रस्य घृणा जाता निजोपरि तथापि गुरुदेवेन समाकृष्ट पुनश्च सौ एवमेवाभवत्तस्य तृतीये दर्शने शपि स्वस्य बोधम् अशेषेण नरेन्द्रो नष्टवान् तदा विशेषायखिलास्तस्य पूर्वजन्मनि ये भवन् नवीनजन्मनो लक्ष्यं जीवनस्यावधिस्तथा एतस्य कलमुद्दिश्य नरेन्द्रं पृष्टवान् गुरुः तदीया बोधवेलायां गुरुरुत्तरम् जज्ञौ गुरुरिदं सर्वं पूर्वमेव न संशयः अधुना केवलं तत्तो पुनश्चापि दृढीकृतम् अधिकृत्य नरेन्द्रस्य पर्वजन्म ततः परं वृत्तान्तान् विन् विविधान् गुरुदेव उवादच सायुज्यं तेन संलब्धं पूर्वस्मिन्नेव जन्मनि सं यदा देहं योगे न सत्यजेत् सप्तर्षिशुषयो कुये कोऽस्ति बहुधा गुरुरब्रवी गुरुरे तदजानाद्धि समाधौ स यदा नरेन्द्रगुरुसंयोगो द्वयोर्जीवनयोरपि अतीव मुख्यघटना संजाता सर्वथा खरो। गुरुदेवे विलया विलिनाद्भूतभारतीयार्षसंस्कृतिः आसीत् परिचितो नैव स आधुनिकचिन्तया नरेन्द्रो नूतनस्त्वस्य प्रतिरूपं अभूदपि अन्वेषणस्वं भावस जागरूक सदा तथा युक्तिवादी स निर्व्याजो विधिक्रमविरोध्यपि देवमानुषयोर्मध्ये गुरुं कञ्चेद्वाञ्छन श्रीरामकृष्णदेवस्य देवीदेवादिकल्पनां व्यामोहः केवलं चेति सुस्पष्टं स उपाहसतु गुरुवाक्यप्रवृत्ति स विममरस च युक्तिभिः अन्धविश्वासशक्त्या स कदापि न पराजितः सुसूक्ष्मं पञ्चवर्षाणि गुरुदेवं स ऐक्षत् अन्ते श्रीरामकृष्णं स गुरुश्वस्येत्यमन्यत एतेन गुरुदेवोऽपि सन्तोषपंभरितोऽभवत् ज्ञातं तेन नरेन्द्रोऽस्ति स्वस्य सन्देशवाहकः त्यक्तुं युक्तिं गुरुर्नैव नरेन्द्रमुपदिष्टवान् गूढार्थम् अंतिमं ज्ञातुं किन्तु सोऽभवदक्षमः तदानीं गुरुणा दत्तं प्रचोदनम् अपेक्षितं नरेन्द्रवितप्रज्ञां क्षमयादम् अयद्गुरुः सान्निध्येन नरेन्द्रस्य गुरुदाह्लादितोऽभवत् तस्य भावी महत्त्वं तु विज्ञातं गुरुणा स्फुटं यदि कोऽपि नरेन्द्रस्य गुणदोषनिरूपणं कुरुते तर्हि तत्सर्वं सोढुं गुरुर शक्तवान् स्निह्यति नरेन्द्रो यतस्तेन विलोकिता नरेन्द्रे व्यक्तरूपेण नारायणशरीरिता गुरो प्रशंसया क्रुद्धो नरेन्द्रः स्यात्कदाचन इदं सर्वं दिव्यमात्रैव सूचितं पुनश्चापि नरेन्द्रस्तु नाभवच्छिन्न संशय उदीरितं नरेन्द्रेण स्निह्यन्नस्ति भवान् अत एव भवच्चित्ते भवतीदृशभावना सम्भ्रान्तसन् गुरुर्दिव्यां मातुः शरणमाश्रितः अवधानं मा कुरु त्वं तदीयवचनोपरि तव वाक्यान्यशेषाली स्वीकुर्यादचिरेण स सान्त्वयन्ती निजभक्तम् एवं माता वदद्गुरुम् ईदृशावसरे भूयो मात्रोक्तं तद्वदेव च श्रीरामकृष्णतुल्यस्य योगिर्वर्यस्य मानसे वर्तते निःसुरं निस्तुलप्रेम स्वम्प्रतीति नरेण वेद तथापि मनसि गर्वः स्वल्पोऽपि नाभवत् सत्यान्वेषणमेवासी तदीयव्यग्रता सदा असान्निध्यं नरेन्द्रस्य दीर्घकालानुवर्तिनं श्रीरामकृष्णदेवस्तु सोढुम् अत्यन्तमक्षमा नरेन्द्रो नैकदिवं दिवसान् कदाचिद् नागच्छेत् तर्हि कमपि कलकत्तां प्रेषयद्गुरुः गुरुरेव गतस्तत्र शिष्यं मेलितुमेकदा एतेन ज्ञायते तस्य शिष्यप्रेम महत्तमम् अवर्तत नरेन्द्रस्य हृदये च गुरुं प्रति अगाधप्रेम यत्तेन नैव वाचा वा प्रपञ्चितम्